ॐ नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे दृढधन्वोपाख्याने श्रीनारायण नारदसंवादे सुदेववरप्रदानन्नाम पञ्चदशोऽध्यायः श्रीनारायण उवाच ततस्तुष्टावतं देवं श्रीकृष्णं भक्तवत्सलम् बद्धाञ्जलिपुटो भू त्वां सुदेवो गद्गदाक्षरम् नमस्ते देवदेवेश त्रैलोक्याभयदप्रभो सर्वेश्वर नमस्तेस्तु त्वामहं शरणं गतः पाहि मां परमेशान शरणागतवत्सल जगदवन्द्य नमस्तेऽस्तु प्रपन्नभयभञ्जन जयस्वरूपं जयदं जयेशं जयकारणं विश्वाधारं विश्वसंस्थं विश्वकारणकारणं विश्वैकरक्षकं दिव्यं विश्वघ्नं विश्वपञ्जरं फलबीजं फलाधारं फलमूलं फलप्रदं तेजस्वरूपं तेजोदं सर्वतेजस्विनां वरं कृष्णं विष्णुं वासुदेवं वन्देऽहं दीनवत्सलं न त्वां ब्रह्मादयो देवाः स्तोतुं शक्ता जगत्प्रभो कथं मन्दो मनुष्योऽहम् अल्पबुद्धिर्जनार्दन अतिदुःखतरं दीनं त्वदभक्तं मामुपेक्षसि तत्कथं लोकबन्धुत्वं प्रभो लोके वृथागतम् इत्यभीष्टोजभूमानम् द्विजस्तस्थौ हरेः पुरः तदा कर्ण्यहरिर्वाक्यम् उवाच जलदस्वनः श्रीहरिरुवाच सम्यक् सम्पादितं वत्सौ यत्त्वयाचरितं तपः किमिच्छसि महाप्राज्ञ तपोधनवदस्वमे तत्तेऽहं वितरिष्यामि सन्तुष्टस्तपसा तव एतादृशं महत्कर्म न केनापि कृतं पुराम् सुदेव वाच यदि प्रीतोसि हेनाथ दयानिधे तत्पुत्रं देहि मे विष्णु पुराणपुरुषोत्तमम् हरे पुत्रं विना शून्यं गार्हस्थ्यं मे न इति विप्रवच श्रुत्वा जगाद हरिरीश्वरः हरिर्वाच अदेयमपि सर्वम् दास्ये पुत्रं विनाद्विजं द्विजं तव पुत्र सुखं वत्स विधात्रा नैव निर्मितं त्वदीयभालफलके वर्णाः सर्वे मये क्षिताः तत्र नैवास्तिते पुत्र सुखं सप्तसु जन्मसु इत्याकर्ण्यहरेर्वाक्यं वज्रनिर्घातनिष्ठुरं सपपातमही पृष्ठे छिन्नमूल इव पतिं पतितमालोक्य प्रमदात्यन्तदुःखितं पश्यन्ति स्वामिनं पुत्र स्पृहाशून्यं पश्चाद्धैर्यं समालम्ब्य सावोचत्पतितं पतिं गौतम्युवाच उत्तिष्ठोत्तिष्ठ हे नाथ किन्न स्मरसि मे वचः विधात्रालिखितं भाले तल्लभेत सुखासुखं किं करोति रमानाथ स्वकृतं तस्य सर्वं भवेद् व्यर्थं यस्य दैवमदक्षिणम् क्रतुदानतपः व्रतेभ्यो हरिसेवनं श्रेष्ठं सर्वेषु ततो दैव, दैव तस्मात् सर्वत्र विश्वासं विहायोत्तिष्ठभूसुरु दैवमेवावलम्ब्यासु हरिणा किं प्रयोजनम् इत्याकर्ण्यवचस्तस्या ीव्रशोकसमन्वितं वै न तेजो वदद विष्णुं क्षोभवे पथुः गरुड उवाच शोकसागरसम्मग्नां ब्राह्मणीं वीक्षहे हरे तथैव ब्राह्मणं नेत्र गलद्बाष्पकुलाकुलं दीनबन्धो दयासिन्धो भक्तानामभयङ्कर भक्तदुःखा सहिष्णोऽस्ति दयाद्य क्व अहो ब्रह्मण्यदेवस्त्वं त्वद्धर्मः क्व गतोऽधुना त्वद्भक्तस्य चतुर्धापि मुक्तिः कर्तले अहो तथापि नेच्छन्ति विहाय भक्तिमुत्तमां तदग्रे सिद्धयश्चाष्टौ किङ्करी भूय संस्थिताः त्वदाराधनमाहात्म्यमेवं सर्वत्र विश्रुतं तर्हि विप्रस्य पुत्रेच्छा पूरणे कः गजमर्पयतः पुंसो ह्यङ्कुशे कः परिश्रमः अतः सेव्यते ते पदाम्बुजम् यद्दृष्टगतं पुंसस् यदृष्टगतं तदेव भविता इति लोके प्रथा जात त्वद्भक्तिर्विलयङ्गत कर्तुं न कर्तुं सामर्थ्यं तव सर्वत्र विश्रुतं तदेवाद्यगतन्नाथ न चेदस्मै सुतप्रदः अतस्त्वं सर्वथा देहि पुत्रमेकं द्विजन्मनि सुदामात्वां समाराध्य लेभे वैभवमुत्तमम् सान्दीपनिर्मृतं पुत्रम् अवाप् कृपया तव इति ते शरणं प्राप्तौ दम्पतीपुत्रलालसौ इति गरुडवचो निशम्य विष्णुर्वचनमुवाच खगं सुधोपमानम् अयि पुत्रमेकमस्मै। वितरमनोगतमाशु वैनतेय इति हरिवचनं निजानुकूलं झटिति निशम्य खगोति हृष्टचेताय सुतमनुरूपमिलासुराय री बृहन्नारदीय पुराणे पुरुषोत्तममास माहात्म्ये दृढधन्वोपाख्याने श्रीनारायण नारदसंवादे सुदेववरप्रदानं नाम श्रीपुरुषोत्तमार्पणमस्तु